मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फैव् पार्वतीप्रश्नविचारः श्रीगणेशाय नमः शौनक उवाच श्रुतं दक्षस्य चरितं यज्ञध्वंसाधिकं महद मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः सुत उवाच शृणुशौनकसंवादं दक्षमुद्गलसम्भवं ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः तं प्रत्युवाचभावेन महर्षियोगिनां वरः मुद्गल उवाच सर्वेषां गणपो माता पिता चैवनसंशयः तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट ज्येष्ठराजेधियद्वाक्यं वेदेन प्रतिपादितम् ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसम्मतं तस्य सर्वे कलां शा वै कलां शांश्चाश्च केचन न सम्पूर्णा जगत्या कुत्र विनायको नामतेन तेन जातोत्सौ विशेषेण च सर्वेषां नायकोऽयं गणाधिपः विगदो नायको, नायको यस्य स्वेच्छाचारी विनायकः स्वानन्दलोकवासी च स्वसुखेन प्रभावदः ब्रह्म ब्रह्मविष्णुशिवाद्यैश्च वेद्याैर्योगिभिरेव च सर्वैः सम्पूजितो देवो धर्मकामार्थमुक्तये अहं ब्रह्मेभिमाहात्म्याद् गर्वो भवति शाश्वतः शिवादीनां यदा धारादिदं सर्वं प्रवर्तते तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये विघ्नकर्ता महाराजस्वयं भवति विघ्नपः पदभ्रष्टा कृतास्तेन सर्वे देवादयो द्विजाः किमाधारमिदं सर्वं विचिन्वन्ति समाधिना तेन योगेन चेदसः पञ्चवृत्तिभिः तासां प्रकाशकोऽयं वै चिन्तामणिरि स्मृतः वेदैसम्पादितं ज्ञात्वा शरणं तं व्रजन्ति ते ततो जातस्तेषां सर्वार्थतस्मृतः सर्वसत् त्मकोऽयं वै विघ्नराजः प्रकीर्तितः अत एव गणेशाद्धि परं किञ्चिन्न विद्यते स विघ्नस्त्वं तमेव शरणं व्रज चिन्तामणिं विघ्नहरं गणेशं विनायकं सुत उवाच प्रजापदिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः पप्रच्छ विनयेनैव कदां पापप्रणाशिनीं दक्ष उवाच कोयं स्वानन्दवासी वै कथं ज्ञेयो भवेन्मया वद तत्र विभो मार्गं तेन तं भजे मुद्गल उवाच अत्र कथयिष्यामि इतिहासं पुरातनं पार्वती शिवसंवादं यथा जातं शृणुष्व भोः कैलासे गिरिवर्ये दुसुखासीनं महेश्वरम् पार्वदी भूत्वा पृच्छति स्म मुदायुता पार्वत्युवाच शिवत्वं सर्वदेवानां नागानां रक्षसां तथा मानवानां च सर्वेषां पूज्य स्वामीन संशयः तेभ्यः पदप्रदातात्वम् प्रदा सर्वाधीश्यः पुरातनः मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः त्वं किं समाधिनो देवध्यायसे मां वद प्रभो त्वत्तः परतरं किञ्चिन्न दृष्टं नैव संश्रुतम् इति महादेवस्तां प्रत्यूचे च सादरं सारं वेदादिमान्यं च ब्रह्मभूयकरं परं श्रीमहादेव उवाच शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशं गणेशं हृदि संस्तं स्वानन्तावासिनं परम् साकारं च निराकारं तस्मिन् देवि न विद्यते दे। मनोवाणी विहीनं न मनोवाणीमयं न वै शिवस्य वचनं श्रुत्वा पार्वतीप्रेम संयुता उवाच मधुरं वाक्यं वाक्यज्ञा धावपूर्वकम् पार्वत्युवाच कोऽस्सौ गणेशनामा वै कथं स हृदि तिष्ठति स्वानन्दवसधिका साकारो न निराकारो कथं स ज्ञायते जनैः मनोवाणीमयोनैव हीनस्ताभ्यां न च तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते ध्यायसेकेन मार्गेण भव मे कथयप्रभो अहं दासि त्वदीया वै शिष्यभावेन संस्थिता कथयस्व महादेवध्यानं गाणे शकं मम तमहं साधयिष्यामि साक्षात्कारेण वै यथा कृतकृत्या भविष्यामि प्रसादात्तेन संशयः मुद्गल उवाच इति पृष्ठो महादेवो देव्या भक्र्यादरेण च पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुधोऽ ब्रवीद तत्ते संशृणुवक्ष्यामि गुह्याद्गुह्यतमं महद रहस्यं वेदशास्त्राणां यस्मात् परतरं न च दक्ष उवाच तव वाक्यामृतेनाहं प्रीदोमुद्गलसाम्प्रदम् उमामहेशसंवादं योगीन्द्र कथयस्व मे सूत उवाच दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै श्रुतं तेन सुसन्तुष्टो वक्तुं समुपचक्रमे मुद्गल उवाच शम्भुस्मृत्वा गणेशानां हृदिध्यात्वा ध्यात्वा महायशाः प्रत्युवाच महादेवीं गाणपत्यप्रतापवान् श्रीशिव उवाच सर्वमायामयं विद्धि जायते यच्च चेदसा चित्तप्रवेशहीनं च मायातीतं निगद्यते रचितं द्विविधं येन स एव स्वसंवेदम् महप्रोक्तं वेदये तद्विशेषतः तत्रैव दृश्यते दे देवो योगिभिर्यागपारकैः तेन स्वानन्दवासी स कथ्यते वेदवादिभिः चित्तस्य पञ्चभूमीनां प्रकाशनकरस्मृतः चिंता मणिरीदिख्यादृति संधि प्रभु समू गणधाच तमी गणेश अभेदर्गेण सदाध्या शक्यसे मुद्द उवाच श्रुवा शिव वचोरम्यं पार्वदी विनयान्विता चकेदा प्रत्युवाचेदं वचनं हितकारकं पार्वत्युवाच भगवन्कथितं कूडवचनं योगभाविधं न बुद्धं तन्मया स्वाम्यं तस्माच्च सुलभं वद ब्रह्म मायामयं माया प्रोक्तम् कीदृशं कथय प्रभो मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मुद्गल उवाच शक्तिप्रश्नं च संश्रुत्य हृष्टः शम्भुः सुयोगविद साश्रुनेत्रः सरोमाञ्चो भक्र्या जादो महायशाः आदिमायां प्रशंसन् सन्वक्तुं तामुपचक्रमे योगमार्गस्य सिद्ध्यर्थं विस्तरेण महेश्वरः ॐ तत्सदिश्रीमदान्त्ये पुराणोपनिषदिश्रीमन्म उद्गले महापुराणे प्रथमे खंडे वक्रतुंडचर पावती प्रश्न विचारो नाम ओम।